कथम व्यसनूते पार्थौ माद्रीसुत अवयुस्ते न्याघ्र बाध्यम दुरात्म कथम धर्म भृता श्रेष्ठ धर्मस्य धर्म विनर्ह परमं क्लेशं सोढ़वान्ुधिषि कथं कथंच बहुला सेना पांडव कृष्णसारथि अस्यन्नेको न यत् सर्वाः पितृलोकम् धनञ्जयः ये तदा चक्ष्वमे सर्वम् यथा वृत्तम् तपोधन यद्यच्च कृतवन्तस्ते तत्र तत्र महारथाः उवाच क्षणम् कुरु महाराज विपुलोऽयमनुक्रमः पुण्याख्यानस्य वक्तव्यः कृष्ण द्वैपायनेरितः महर्षेः सर्वलोकेषु पूजितस्य महात्मनः प्रवक्ष्यामि मतम् कृत्स्नम् व्यासस्यामित तेजसः इदम् शतसहस्रम् हि श्लोकानाम् पुण्यकर्मणाम् सत्यवत्यात्मजेनेह व्याख्यातममितौजसा य इदम् श्रावयेद्विद्वान् ये, ये चेदम् शृणुयुर्नराह ते ब्रह्मणः स्थानमेत्य हि वेदैः समितम् पवित्रमपि चोत्तमम् श्राव्याणामुत्तमम् चेदम् पुराणम् अस्मिन्नर्थश्च धर्मश्च निखिलेनोपदिश्यते इतिहासे महापुण्ये बुद्धिश्च परिनैष्ठिकी अक्षुद्रान् दानशीलांश्च सत्यशीला न वेदमिमं कार्ष्णम् वेदमिमम् विद्वाञ्छ्रावयित्वार्थमश्नुते भ्रूणहत्याकृतम् चापि पापम् जह्यादसंशयम् इतिहासमिमम् श्रुत्वा पुरुषोऽपि सुदारुणः च्यते सर्वपापेभ्यो राहुणा चन्द्रमायथ जयो हासोयं श्रोतव्यो विजिगीषुणा महीम् विजयते राजा पराजयेत। इदं पराजयेत् इदम् पुंसवनम् श्रेष्ठमिदम् स्वस्त्ययनम् महत् महिषीयुवराजाभ्याम् श्रोतव्यं बहुशस्तथा वीरं जनयते पुत्रम् कन्याम् वा राज्यभागिनीम् धर्मशास्त्रमिदम् पुण्यमर्थशास्त्रमिदम् परम् मोक्षशास्त्रमिदम् प्रोक्तम् व्यासेनामित बुद्धिना